मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायं फोर्टी नैन् गणेशनिर्मल्यमाहात्म्यवर्णनं श्रीगणेशाय नमः दक्ष उवाच निर्मल्यस्य च माहात्म्यं श्रुतं यत् परमाद्भुतं विस्तरेण पुनःस्वामिन् वद तस्य चरित्रकं मुद्गल उवाच पराशरगृहे देवो बभूवः गजाननः पुत्रभावेन तस्यापि चरितं कथितं पुरा पराशरेणैव तत्र स्थापिता मूर्तिरादराद गजाननस्य भो दक्ष सर्वदा भूत् नित्यम् तत्रैव देवेश ब्रह्मविष्णुशिवादयः रात्रौ गजाननं ते सम्पूजयन्ति सुसिद्धिदम् गजासुरवधा दक्षप्रारभ्य भक्तिसंयुताः स्वर्गपुष्पोपहाराध्यै भुजाः। कदाचित्तत्र राजर्षिर्मृगया सक्त आययो सैन्येन स्वप्रधानैश्च समृदो वीरभद्रकः स आगत्य गणेशान् पूजयन् भक्तिसंयुतः तत्रैव निशि संस्थो भूत् गणपत्यो महायशाः उषः समागत्य सपु पूज गजाननं पुष्पाणि दृष्टवान् शोभो तत्र स्वर्गोद्भवानि च सुवासबहुलान्येव मन्दाराद्यानि भूमिपः विस्मितो मानसे भूत्वा भवत्तत्रैव संस्थितः देवालयं पितायासौ भूपः रक्षकान् सैन्ययुक्तो जजागारदेवदर्शनलालसः तदो देवेन्द्रमुख्याश्च रात्रौ देवाः समाययुः गुप्तरूपेण पुपूजुस्तम् गजाननम् पूजयित्वा गदा सर्वे राजा तत्र समागतः पूजाम् दृष्ट्वा महाभागो विस्मितोऽभूत् पुनः पुनः तदस्वगुरवेदत्वापप्रच्च विनयान्विदः देवदर्शनकाङ्क्षी कृताञ्जलिः विशेषदः विशेषतः उवाच स्वामिन् देवगणाः पूजयितुम् चास्त्रगजाननम् नित्यमायान्दितान् द्रष्टुमिच्छामि वदकारणम् शिव शर्मो वाच निर्माल्य सम्भवानित्वं पुष्पाणि यत्र तत्र च आच्छादयमहीपाल तेषां ते दर्शनं भवेत् तथेदि वीरभद्रेण कृतं देवालये पुनः देवासमागतरात्रावज्ञानेनाचरंस्ततः निर्माल्यस्पर्शमात्रेण पुण्यहीना बभूविरे पूजां कृत्वा पुनर्गन्तुमिच्छां चक्रुसुरेश्वराः ततोऽदिवेगहीनैश्च देवैर्देवेन्द्रशतमैः विचारेण समाज्ञादं कारणं गदिखण्डनी पादस्पर्शकृतोदोऽस्माभिर्निर्माल्ये गणपस्य च अधो गतिविकीनैश्च किं कर्तव्यं विशेषतः तदो राजा समायाधपूजार्थं देवसन्निधौ निर्माल्यमार्जनं कृत्वा ददर्श देवमुख्यकान् तान् प्रणम्यमहाभक्त्या तुष्टावविधैस्तवैः प्रसन्नास्ते च राजानमोजु शम्भुवादय सुराः शिवादय ऊजुः राजंस्त्वया कृतं कर्म स्वार्थभावेन दुःखदं देवानां तत्र चोपायं कुरु तदो राजा भयो भयोद्विघ्नस्वगुरुं प्रणिपत्यतं पप्रचलने तेषामुपायं पुण्यदम् परम् गुरुणा बोधितो राजा हृदि गजाननं। गजाननम् गणेशपूजया जादम् पुण्यपुष्पं ददौ तदा अगाधपुण्ययोगेन देवागदियुधाकृताः विष्णवादयो जगुत्स्थं ते महीपदे अमोकं दर्शनं प्रोक्तमस्माकं शास्त्रसम्मदम् अदो मनेप्सिदम्भूप दास्यामो नात्र संशयः ततो राजा च ब्रह्माद्यानुवाचसकृताञ्जलिः गणेशे दृढभक्तिर्मेस्तु भवत्कृपया परा तदस्ते विस्मता सर्वे प्राथयि गजाननम दुर्भक्ति गणेशने ब्रह्म भूत भूतपद गदा दगेशु देवास्ते राजा तत्र तमस्थित पुत्रे विनिक्षिप्य बाले प्रधान संयुदे <Sessantananda> नित्यं गजाननं भक्त्या भजदनन्यचेतसा अन्ते स्वानन्दको भूत्वा भजदे गणनायकं। गणनायकम् एवं निर्माल्यमाहात्म्यं सङ्क्षेपेण निरूपितं पठनाश्रवणानृभ्यो भुक्ति मुक्तिफलप्रदम् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन मौद्गले महापुराणे चतुर्थे खंडे गजानन चरिदे गणेश चि गणेश्यहात्म्यवर्णनमको न पंचाशतम ओं